मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं ट्वेन्टिवन् धूम्रमहिमावर्णनम् श्रीगणेशाय नमः शौनक उवाच षट्सु मासेषु विघ्नेशपूजनीयो न हैकथं तेषु मुख्यप्रकारेण तुष्ठकेन गजाननः के के सिद्धिं कदास्तेषु गणेशभजनेन वै तेषां चरित्रकं ब्रूहि सर्वसिद्धिप्रदायकं सुद उवाच अरुणोदयकाले वै स्नानं कुर्यान्नरः सदा तीर्थेषु व्रत संयुक्तस्व स्वशाखाप्रमाणतः स्वशाखोक्तेन मार्गेण सन्ध्यादिकं समाचरेद वैदिकैस्तान्त्रिकैर्मन्त्रैः पूजयेद्गणनायकं पुराणसम्भवैर्वापि यथोपचारसंयुतः एक भुक् स भवेन्नित्यं न क्रभुक् वा भवेन्मुने हविष्यान्नम् फलहारो निराहारो ध पुनः ब्रह्मचर्यसमायुक्तो न कलोमयुतो भवेद् पृथिव्यां शयनकारी मौनधारकः यद्धास्वधर्मसंयुक्तो व्रतं मासात्मकं चरेद ब्राह्मणः क्षत्रियो वैश्यशूद्रो वापि महामुने स्वस्वधर्मयुधो भूत्वा व्रतमासात्मकं चरेद स्त्रीणां व्रतमिदं पुण्यं साधवानां सुखप्रदं विधवानां विशेषेण परमासात्मकं भवेद तेषु पञ्चगमानन्दाचरेन्मुख्यं सदा जनः गणेशपूजनं विप्रभोजनं दीपधानकम् शमीमन्दारसेवां च प्रदक्षिणपरायणां गवां शुश्रूषणं तद्वत् सर्वसिद्धिप्रदं भवेद एवमादिगणेशस्य प्रियम् नानाविधम् चरेद सदा तन्निष्टभावेन तिष्ठेन्मा सव्रती मुने अन्यान् शम्भुमुखान् देवान् मानवो मुने स्वस्वेच्छायुधभावेन व्रतम् मा समयं चरेद आवश्यकेन भावेन मास्सा सेव्या धर्मार्थ का मा मोक्षाणां ब्रह्मभूयस्य दायकाः यं मासात्मकेन मुख्येन व्रतेन मानवः अत्रे दिहास्समुख्यं कथयामि समासदः मासव्रतेन ये सिद्धिं लेभिरे भक्तिसंयुधाः शङ्खासुरो महादैत्यो ब्रह्माण्डाधिपतिः पुरा बभूवस जहारैव वेदान् स्मृति समन्वितान् तदोहा कृतं सर्वैः कर्महीनप्रभावदः वर्णसङ्गरजं कर्म बभूवे सर्वमण्डले तदो मुनि मुनिगणैर्युक्ता देवा विधिमुखाययुः विष्णुं च शरणं सर्वे तुष्टुभुर्वेदभेतवे तदो विष्णुस्वयं शम्भुं जगामतान् विसृज्य सः तं जगादमहाभागं विनयेन समन्वितः विष्णुरुवाच शङ्खं वेदहरं शम्भो दुर्जयं देवतादिभिः जेष्यामि त्वत्प्रसादेन तत्रोपायं वद स्वमे श्रीशिव उवाच समीपे कार्तिको मासो जनार्दनसमागतः का तत्र मासव्रते न त्वं तोषयस्व तेन विहीनस्त्वं विजेष्यसि महाबलं शङ्खासुरं न सन्देहो नान्यथा पुरुषोत्तम श्रुत्वा शङ्करं नत्वा विष्णुः परपुरञ्जयः गदो बदरीकारण्यं व्रतार्थं भक्ति संयुधः तत्रैकाक्षरमन्त्रस्य पुरश्चरणमुत्तमं चकारगणनाथं स तोषयामास यत्नदः कार्तिके पञ्चकं सेव्यं गणेश्यं सर्वसिद्धिदं मार्गशीर्षे गणेशान् प्रणम्य प्रययौ सुरान् तदो बुद्धिपदिं स्मृत्वा केनो केनोपायेन दैत्येश्यं विजेष्यामि सुदारुणम् तत्र स्फूर्ति समुत्पन्नां गणेशकृपया हृदि मात्स्येनैव स्वरूपेण विजयो मे भविष्यति यदस्मिन्नन्तरे तत्र बभूवा काश्यजां परां वाणीं शुश्रावदेवेश केशवः वा परवीरः मात्स्यरूपेण शङ्खं तं जहि सर्वभयङ्करं मां स्मृत्वा विजयस्ते सन्देहो विचयस्ते भविष्यति ततो गणपतिं स्मृत्वा मत्स्यो भूत्वा जनार्दनः घोरं युद्धं स कृत्वा तं जपान शङ्खमुल्बणं साङ्गान् वेदान् ददौ तान् ब्रह्मणे प्रभुः स्तुतः सम्पूजितो देवैर्मुनिभिः स्वस्थलं ययौ एवं कार्तिकमासेत्तुस्नानादिव्रत तेजसा हदः शङ्कासुरस्तेन विष्णुना मत्स्यरूपिणा अन्यच्च शृणु कथां पापप्रणाशिनीम् कार्तिकव्रतसंयुक्तां का पुरातन भवां परां पौलस्त्यो ब्राह्मणः सोमदत्त इति श्रुतः स्वधर्मनिरदो नित्यं तपस्वी सुचिमानसः जगामस गणेशस्य भक्त्यार्थं गौतमं मुनिं पप्रच्छ विनदो भूत्वा भक्त्यर्थं योगिनां वरं सोमदत्त उवाच केनोपायेन विघ्नेशः सद्यो वै दृष्टिगो भवेद क्षणभङ्गुरदेहत्वात् तदुपायं वद प्रभो गौतम उवाच समीपे कार्तिको मासः महामुने व्रतं मासात्मकं कार्यं दर्शनार्थं महाप्रभोहो। यमुक्त्वा विधिं तस्मै कथयित्वा ददौ परं स्थानं स्वस्याश्रमे सोपि तत्रारम्भं चकारः ये कनिष्ठस्वभावेन परं गाणेश पञ्चकं सेवयामास भक्त्या कार्तिकव्रतसंयुतः उपोषणयुतस्तत्र ध्यात्वा हृदि गजाननं जचापमन्द्रराजं स षडक्षरं शुभप्रदं तत्र चित्रं समभवत् समाप्तिसम्भवे संभवेदिने तच्छृणुष्व महाविप्रदृढनिश्चयदं भवेद। पूजायां संस्थित विप्रोमदत् महायश कां पूर्णिमां स ये सन तत्र त्र दूर्वा शमी मंदुष्पाथिता आकस्म भ्राक्म कचिता निगृह्य सोमदत्त स्वयं तत्र मौनवानासने स्थितः नोद्धितो नियमे संस्थश्युशोच गणपं स्मरन् ततस्तेन विचारेण तदर्थं ज्ञातमद्भुतं लोमानि देहसंस्थानि सर्वौषधिमयानि च अतो लोमानि सर्वाणि त्वचा युक्तानि भावतः दास्यामि गणनाधाय दूर्वा शम्याधिकारणात् तदशस्त्रं समागृह्य शिरचेत्तुं समुद्यतः शिखायुक्तं गणेशाय दूर्वार्थं स्वस्य चार्पयन् स्वकण्ठे शस्त्रखादं स चकारगणनायकः तावत् समाययौ तत्र ब्राह्मणस्य स्वरूपधृकशमीमन्दारधूर्वादीन् गृह्य तस्मै ददौ पुनः उवाच पूजय त्वं तु गणेशं हठ तत्पर दृष्ट्वादिहर्षसंयुक्तः सोमदत्तो नियमं स्वं चकारैव तमुवाच प्रणम्यदु सोमदत्त उवाच त्वं कोऽसि वद मां नाथ हृत्वा दूर्वाधिकम् पुरा समायाद पुनः सर्वं दत्तम् मे नियमात्मकम् न त्वम् विप्रोसि देवेश साक्षाद्विघ्नेश्वरो भवान् निश्चयं मे दृढम् दृष्ट्वा परीक्षार्थं समागतः दर्शयस्व निजं रूपं नो चेद्देहं त्यजाम्यहं सत्यं वदमहाभाग महाभाग तेन धृप्तो भवामि च तदोव्रतप्रभावेण भक्त्या नियमयुक्तया सन्तुष्टो गणराजः स दर्शयामास स्वं वपुः चतुर्भुजं त्रिनेत्रं च शुण्ठा दण्डविराजितम् सिद्धिबुद्धिसमायुक्तं परस्वादि सुचिह्नितं नानाभूषणशोभाढ्यं शेषनाभिधरं परं चिन्तामणिं मणिं हृत्स्थं लम्बोदरैकदन्तकं मूषकोपरि संस्थं तं दृष्ट्वा वस्त्रविराजितं ननाम सोमदत्तः हर्षनिर्भरमानसः सरोमाञ्जो ननर्तासौ साश्रुनेत्रः प्रतापवान् न विवेदविधिं किञ्चिद्देहातीद इवाबभौ ततो हर्षं समागृह्य पूजयामास तं प्रभुं पुनः प्रणम्य हरं पं तुष्टावस कृताञ्जलिः सोमदत्त उवाच गणेशाय परेशाय सदा शान्तिप्रदायिने योगिनां योगरूपाय हृदिस्थाय नमो नमः विघ्नेशाय महाविघ्नविघ्नदाय परात्मने विघ्नहर्त्रे स्वभक्तानां सत्ताधाराय नमः अनादये महाकालकालाय कालरूपिणे अन्धे विहारयुक्तायादिनाथाय नमो नमः विनायकाय देवाय सर्वेषां नायकाय च नायकेभ्यः पदादीनां दात्रे तुभ्यं नमो नमः लम्बोदराय सर्वेषामुदरस्थाय ते नमः अपारोदारभावाय भ्रमेशाय नमो नमः आदिमध्यान्तहीनाय तदाकारस्वरूपिणे स्वानन्दपदये तुभ्यं स्वसंवेद्याय ते नमः सिद्धिदात्रे सुभक्तेभ्यो दुष्टानां सिद्धिहारिणे सिद्धिपदे महासिद्धिरूपाय ते नमो नमः बुद्धिपदे सुबुद्धीनां दात्रे साधुजनप्रिय दुद्बुद्धिदायिने तुभ्यं दुष्टेभ्यो वै नमो नमः सम्प्रज्ञादस्वरूपाय सम्प्रज्ञादं महाशिरः तयोर्योगे नराकार गजाकाराय दे नमः किं स्तौमि गणनाथ त्वां सदा योगस्वरूपिणे अधस्ते नमनं कृत्वा कृतकृत्यो भवाम्यहम् धन्योकं सर्वभूतेषु त्वां दृष्ट्वा गणनायकम् कुलं शीलं यशो धन्यम् जनकौ आश्रमः धन्यम् व्रतम् गणाधीश महत् कार्तिकमासकं तस्याचरणमात्रेण त्वं प्रभो भक्तिं त्वदीयपादेषु देहि मे द्विरदानन्यद्याचे भ्रमैर्युक्तं गाणपत्यपरायणः तस्य तद्वचनं श्रुत्वा गणेशस्तमुवाचः यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति गाणपत्यप्रियोऽत्यन्तं भविष्यसि महामुने भक्तो मदीयपादस्य सर्वमान्यो भविष्यसि त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकं भविष्यति नृणां विप्रदां शृण्वदां सदा एवमुक्त्वान्तर्दधेसौ विघ्नेश करुणानिधिः सोमदत्तो महाभागो गौतमं प्रणनामः महा। तदादिसमुनिख्यादो बभूव गणपप्रियः योगी योगवितां श्रेष्ठः सर्ववेदार्थतत्त्वविद ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्माौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते धूम्रमहिमा वर्णनं नाम एकविंशतितमोऽध्यायः ओ